शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे नागं पाशं च घण्टां प्रलयहुतवहां चाङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभम् पार्वतीशं नमामि